मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं 42 टु सूर्यावतारचरितं श्रीगणेशाय नमः आदिशक्तिरुवाच विकटेन महादेव्यो रचितं मायया परं नानाभेदयुधम् ब्रह्मा सद्रूपं विद्विधेरदं तेन नानाविधं ना ब्रह्म जगन्नानाविधं तथा सृष्ठं तानि विशेषेण जीवहीनानि नी मे निरे तदस्तैर्विघटस्यैव तपस्तप्तं सुदारुणम् एकाक्षरविधानेन दिव्यवर्षसहस्रकम् तुष्टस्थानि ययौ देवो वरदानार्थमादराद रथस्थः सूर्यरूपेण सर्वात्मा सर्वभावनः तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादराद तद्दर्शन च बोधेन ज्ञानयुक्तानि शक्तयः आत्माकारोऽयमेकश्च विकटसूर्यरूपधृक् न कुत्रचित् प्रदृश्येद भेदो विकटसूर्ययोः तान्यापूज्यप्रणेमुस्तं पुनस्तोदुं प्रचक्रमुः नाधान्य ब्रह्मा विश्व नाब्रह्म्यूचु विकटा परेशा सर्वीवन धारिणे सूर्याय भानवेते नमो नम सप्ता संस्थाय विघ्नेशाय परात्मने हे रम्बाय जगन्नाथब्रह्मनाधाय ते नमः संज्ञापदे नमस्तुभ्यं साक्षिरूपाय साक्षिणे छायानाधाय देवेश देवदेवेश ते दे नमः अनामयाय नित्याय सहस्रकरधारिणे अनन्तभेदहीनाय द्वितीयाय नमो नमः सर्वादये सदा सर्वाधाराय विश्वमूर्तये कर्माधाराय सर्वेषां पालकाय नमो नमः आदि परेशा परात्परतराय ते दिन्य पदनाध दिनपालाय वम अलमणे पदये तेजसपद अनाधाराय वृष्ट्यास्तु चालकाय नमो नम किं स्तुमस्त्वां रवे योगिनं सततं सर्व आत्माकारं परात्परं। एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः वयं भिन्नानितेनत्वं तेन संशयः एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावदः तान्युद्धाप्यार्यमावाक्यं जगादभक्तवत्सलः सूर्य उवाच वरान्ब्रूत च ब्रह्माणि दास्यामि भक्त्रियन्ध्रिदः भवत्कृतमिदं स्तोत्रम् भुक्तिमुक्तिप्रदं भवेद यं यम यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ब्रह्म भूयप्रदमेस्तु स्तोत्रं मद्भक्तिवर्धनं सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि तु जगुस्थं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ब्रह्माण्यूचुः तुष्टश्चेद् ब्रह्म ब्रह्मेश्व जीवयुक्तानि नित्यदा कुरुष्व सर्वभावेन स्वस्वसौख्यपराणि तु भक्तिं देहि सदानाथ तव पादाम्बुजे पराम् मायामोहविनाशार्थं योगं देहि परात्परं तथेति सविता तेभ्य उक्त्वा ज्ञानं जगादः मायामोहविनाशार्थं गणेशं योगशान्दिदं सूर्य उवाच असत् सत् समनेदीनां संयोगे योग उच्यते स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः स्वस्वरूपेण हीनो यमयोगो योग उच्यते नकाराक्षरगस्सोऽपि वेदेषु कथितो भवत तयोर्योगे गणेशानःशान्तिनां शान्दिदायकः चित्ते चिन्तामणिं दृष्ट्वा भविष्यथ सुयोगिनः संयोगायोगरूपं यन्मायामयं विशेषदः तस्या विकटभावेन भजध्वं विकटं सदा स्वस्वब्रह्मणि संस्थं तु कर्म कृत्वा स्वभावजं गणेशार्पणभावेन भवद्भिस्तीयतां सदा एवमुक्त्वा स्वयंभानुर्ब्रह्माणि सर्वनायकः अन्तर्दधे महादेव्या स्वानन्दस्थो बभूवः तदो सन्मुख्यब्रह्माणि स्वस्वविश्वयुतानि च जीवयुक्तानि जातानि खेलां चक्रुः परस्परं यथा सूर्येण सन्दिष्टो योगो विकटसंनिधः साधयित्वा तथा तानि सुशान्तानि बभूविरे हृदि चिन्तामणिं ज्ञात्वा बहिः कर्माणि कृष्णशः समर्प्य विकटं देव्यो भजन् ब्रह्माणि रेमि रे एवं विकटमाहात्म्यं सूर्यावतारसं निदं कथितं विस्तरेणैव समासेनापि निश्चितम् अयं सूर्यात्मकश्चैव विकटस्य महात्मनः अवतारः समाख्यादः सर्वसिद्धिप्रदायकः शृणुयाद्यः पठेद्वापि ससिद्धिं परमां लभेद ॐ तत्सदितिः श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॐ